ततः समाधाय सवेदपारगो जुहाव पुताशनं हुताशनं युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया प्रदक्षिणं तौ प्रगृहीतपाणि समानयामास स वेदपारगः ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ क्रमेण चानेन नराधिपात्मजा वरस्त्रियस्तेज्जगृहुस्तदाकरम् अहन्यहन्युत्तमरूपधारिणो महारथाः कौरव वंशवर्धनाः इदं च तत्राद्भुतरूपमुत्तमं जगादेव शीरतीतमानुषम् महानुभावा किल सासु मध्यमा बभूवकन्यैव गते गतेऽनि कृते विवाहे दृपदो धनं ददौ महारथेभ्यो दिव्यदृशां पुनर्दौ तदा धनम्साक्षिकम् तथैव वस्त्राणि विभूषणानि कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्यतांहृविन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चाल नृपस्य तस्यः सर्वेऽप्यतुष्यन्नृपपाण्डवे यास्तस्याशुभैशीलसमाधिवृत्तैः सा चाप्येषा याज्ञसेनी तदानीम् स्वसुव्रतैः श्रीमहाभार आदिपर्व वैवाहिकपर्व द्रौपदी विवाह सप्तव्यधिकतमोध्याय